श्रीमद्भागवत् महापुराणं दसंस्कन्धम् अथैकोनसप्ततितमोऽध्यायः तेवर्षि नारज्जीका भगवान् की गृहचर्यादे शेषोकुवाच नरकं निहतं श्रुत्वां तथोद्वाहं च योषितां कृष्णेनैकेन बह्वीनां तद् चित्रं बतैतदेकेन वपुषा युगपत् पृथक् गृहसु द्वष्टसाहस्रं श्रियैक उदावहत् अत्युत्सुको द्वारवतीं देवर्षि द्रष्टुमागमत् पुष्पितोपुवनारामन् द्विजाञ्जालीकुलनादिताम् उत्फुल्लेन्दीवराम्भोज कल्लारकुमुदोत्पलैः चुरुतेषु सशुचुशुच्यैकूजितं हंसारसै प्रासादलक्ष्यैर्णवभिर्जुष्टां स्फार्तिकराजतैः महामरकतप्रक्ष्यै स्वर्णरत्नपरीक्षतैः विभक्तरथ्यापथ चद्वारापणै शालासभाभिरुचिरां सुरालयै संसिक्तमार्गां गणवीथिदेहलीं पतत्पताका ध्वजवारितातपां तस्यामन्तः पुरं श्रीमद् अर्चितं सर्वधिष्णयपैः हरेश्वरकौशलं यत्र त्वष्टाकाशेन दर्शितं तत्र षोडशविषद्यं सहस्रैः समलङ्कृतम् विवेशैकतमं क्षीरैः पत्नीनां भवनं महान् विष्टब्धं विद्रुमस्तम्भै वैदुल्यफलकोत्तमये निन्द्रनीलमयै कुड्यै जगद्या चाहतत्विषा वितानैर्निर्मितैस्पष्टा मुक्ता दामाविलम्बिभिः दान्तैरासन्न्यपर्यङ्कै मण्ड्योत्तमपरिष्कृतैः दासिभिर्निष्कण्ठीभिः सुवासोभिरलङ्कृतं पुम्भिः सकञ्चुकोष्णीशसुवस्त्र मणिकुण्डलैः रत्नप्रदीपानिकरद्युतिभिर्निरस्ताध्वान्तं विचित्रावलभिषो शिखण्डिनोऽङ्ग नित्यन्ति यत्र विहिता गुरुधूपमक्षये निर्यान्तमीक्ष घनबुद्धय उन्नदन्तः तस्मिन् समानगुङ् गुणरूपवयस्तु वेश दासीसहस्रीत्यां गृहिण्यां विप्रोददर्श चमरभ्यजनेन रुक्मदण्डेन सा त्वत्पतिं परिवीजयन्त्या सन्तन्निरीक्ष्य भगवान् सहसोत्थितश्रीपर्यङ्कतसकलधर्मभृतां वरिष्ठ आनम्यपादियुगलं शिरसा किरीटज्युष्टेन साञ्जलिर्वयी विशदासने श्री तस्यावनिज्यचरणौ तदपसमृध्ना बिभ्रजं जगद्गुरुतरोऽपि सतां पतिर्हि ब्रह्मण्डदेवयति यञ्जुणनामयुक्तं तस्यैव यच्चरणसौचमशेषतीर्थं सम्पूज्य देवरतिवर्यमृषिपुराणो नारायणो नर्षकोविधि नोदितेन वाल्याभिभाषामृतयामृतमिष्टयातं त्राह प्रभो भगवते करवामहे किं नारदुवाच नैवाद्भुतं तै भोकिलोकनाथे मैत्रीजनेषु सकलेषुतमखलानां निश्रेयसाय हि जगस्थिते रक्षणाभ्यां शैरावतार उरगाय विदामशिष्टुं दृष्टं तवाङ्गियुगलं जनतापवर्गं ब्रह्मादिबिर्हृदि विचञ्चमगाधबोधै संसारकूपतितोत्तरणावलम्बं ध्यायं च राम्यनुगृह्याण यथा स्मृति स्यात् ततोऽन्यदा विषदगेहं कृष्णपत्न्याशनारदः योगेश्वरेश्वरस्याङ्गयोगमाया विविशया दिव्यन्तमक्षये तत्रापि प्रिया चोद्धवेन च पूजितः पर्या भक्त्या प्रत्युत्थानाशनादिभिः पृष्ठस्याविधिसेवासौ गदा यातो भवानिति के ते किं नो पूर्णानाम् अपूर्णैरस्मदादिभिः तथापि ब्रूहिणो ब्रह्मन् जन्मैतच्छोभनं कुरु स तु विस्मृत उत्थाय तृष्णीमन्यतमं दुगाद्गृहं तत्राप्यचष्टं गोविन्दम् लालयन्तं सिता सृषुन् ततोऽन्यस्मिन् गृहे पश्यन्मज्जनाय कृतोद्यमम्